वैशम्पायिन उवाच मुहूर्तमिव तम् द्रोणश्चिन्तयित्वा विनिश्चयम् सव्यसाचिनमादायनैशादिम् प्रति जग्मिवान् ददर्शमलदिग्धाङ्गम् जटिलम् चीरवाससम् एकलव्यम् धनुष्पाणिमस्यन्तमनिशंशरान् एकलव्यस्तु अभिगम्योपसङ्गृह्य जगाम शिरसामहीम् पूजयित्वा ततो द्रोणम् विधिवत्स निषादज निवेद्य शिष्यमात्मानम् तस्थौ प्राञ्जलिरग्रत ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदम् वचः यदि शिष्योऽसि मे वीरवेतनम् दीयताम् मम एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽ ब्रवीदिदम् एकलव्यौ वाच किम् प्रयच्छामि भगवन्नाज्ञापयतु माम् गुरुः न एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् प्रतिज्ञामात्मनो रक्षन् सत्ये च नियतः सदा तथैव हृष्टवदनस्तथैवादीनमानसः छित्त्वा विचार्यतम् प्रादाद्रोणायाङ्गुष्ठमात्मनः स सत्यसन्धम् नैषादिम् दृष्ट्वा प्रीतो व्रवीदिदम् एवम् कर्तव्यमिति वा एकलव्यमभाषत ततः शरम् तु नैषादिरङ्गुलीभिर्यकर्षत न तथा च स शीघ्रोऽभूद्यथा पूर्वम् न राधिप ततोऽर्जुनः प्रीतमाना बभूव विगतज्वरः द्रोणश्च सत्यवागासीन् नान्योऽभिभवितार्जुनम् द्रोणस्य तु तदा शिष्यौ गदा योग्यौ बभूवतु दुर्योधनश्च भीमश्च सदा संरब्धमानसौ अश्वत्थामारहस्येषु सर्वेश्यभ्यधिकोऽभवत् तथाति पुरुषानन्यान्सारुकौ यमजावुभौ युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जय प्रथि सागरातायां रथयूथप यूथप बुद्धिग बलोत्है सर्वास्त्रु च निष्ठित अस्त्रे विशिष्टो गुर्वुरागे चशिषोदर्जुन तु्येष्वस्त्रोपदेश वीर्यवान्कुमरा बभूवातिरथोर्जुन म् भीमसेनं कृतविद्यम् धनञ्जयम् धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परं, तामस्तु सर्वान् समानीय सर्वविद्यास्त्रशिक्षितान् द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ कृत्रिमम् भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् अविज्ञातम् कुमाराणाम् लक्ष्यभूतमुपादिशत् द्रोणौवाच शीघ्रम् भवन्तः सर्वेऽपि धनुष्यादाय सर्वशः भासमेतम् समुद्रिश्य तिष्ठध्वम् सन्धितेशव मद्वाक्यसमकालम् तु शिरोस्य विनिपात्यताम् एकैकशो एक तथा कुरुत वैशम्पायिन उवाच ततो युधिष्ठिरम् पूर्वमुवाचाङ्गिरसांवरः सन्धत्स्वबाणम् दुर्धर्षम् मद्वाक्यान्ते विमुञ्चतम् ततो युधिष्ठिरः पूर्वम् धनुर्गृह्य परन्तपः तस्थौ भासं समुद्दृश्य गुरुवाक्यप्रचोदितः ततो विततधन्वानम् द्रोणस्तम् कुरु स मुहूर्तादुवाचेदम् वचनम् भरतर्षभ पश्यैनम् तम् द्रुमाग्रस्थम् भासम् नरवरात्मज पश्यामीत्येवमाचार्यम् प्रत्युवाचे युधिष्ठिरः स मुहूर्तादिव पुनर्द्रोणस्तम् प्रत्यभाषत द्रोणौवाच अथ वृक्षामि मम् माम् वा प्रपश्यसि तमुवाच स कौन्तेयः पश्याम् येनम् वनस्पतिम् भवन्तम् च तथा भासं चेति पुनः पुनः तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव नैतच्छक्यम् त्वया वेद्घुम् लक्ष्यमित्येव कृत्सयन् ततो दुर्योधनादींस्तान् धार्तराष्ट्रान्महायशाः तेन क्रमयोगे जिज्ञासुपय्छत अन्या शिष्यादीनच्वादेश तथा सर्वे तत्सम कुत्ता आदिपर्भवपर्वि द्रोणशिष्यपरीक्षायाकशदतमोध्याय